अथ पञ्चाधिकशततमोऽध्यायः वैशंपायन उवाच ततः सत्यवती काले वधूं स्नातामृतौ तदा संवेशयन्ति शयने शनैर्वचनमब्रवीत् कौसल्ये देवरस्तेऽस्ति सोऽद्यत्वानुप्रवेक्ष्यति अप्रमत्ताप्रतिक्षयिनं निशीथे ह्यागमिष्यति श्वश्रास्तद्वचनम् श्रुत्वा शयानाशयने शुभे सा चिन्तयत्तदा भीष्मम् अन्याम् च कुरु पुङ्गवान् ततोऽम्बिकायाम् दीप्यमानेषु दीपेषु शरणम् प्रविवेशः तस्य कृष्णस्य कपिलाम् जटाम् दीप्ते च लोचने बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् सम्बभूवतया सार्धम् मातुः प्रियचिकीर्षया भयात्काशिसुता तम् तु नाशक्नोदभिवीक्षितुम् ततो निष्क्रान्तमागम्य मातापुत्रमुवाचः अप्यस्या गुणवान्पुत्र राजपुत्रो भविष्यति निशम्यतद्वचो तद्वचो मातुर्व्यासः सत्यवती नागायुतसमप्राणो विद्वान् राजर्षि महाभागो महावीर्यो महाबुद्धिर्भविष्यति तस्य चापि शतम् पुत्रा भविष्यन्ति महात्मनः किन्तु मातुः स एव भविष्यति तस्य तद्वचनम् श्रुत्वा माता पुत्रमथाब्रवीत् नाथः कुरूणाम् नृपतिः अनुरूपस्तपोधन ज्ञातिवंशस्य गोप्तारम् पितॄणाम् वंशवर्धनम् द्वितीयम् कुरु वंशस्य राजानम् दातुमर्हसि सतथेति प्रतिज्ञाया प्रतिज्ञाय निश्चक्राममहायशाः सापि कालेन कौसल्या सुषुवेन्धम् तमात्मजम् पुनरेव तु सा देवी ऋषिमावाहयत्सत्या यथा पूर्वमरिन्दम ततस्तेनैव विधिना महर्षिस्तामपद्यत अम्बालिकामथाभ्यागादृशिम् दृष्ट्वा च सापि तम् विवर्णा पाण्डुसङ्काशासमपद्यत ताम् भीताम् पाण्डुसङ्काशाम् विषण्णाम् प्रेक्ष्य भारत व्यासः सत्यवती पुत्र इदम् वचनमब्रवीत् यस्मात्पाण्डुत्वमापन्ना विरूपम् प्रेक्षमामिह तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति नाम चास्यैतदेवेह भविष्यति शुभानने इत्युक्त्वा स ऋषिसत्तमः ततो निष्क्रान्तमालोक्या सत्या पुत्रमथाब्रवीत् शशंसस पुनर्मात्रे तस्य बालस्य पाण्डुताम् तम् माता पुनरेवान्यम् एकम् पुत्रमयाचत तथेति च महर्षिस्ताम् मातरम् प्रत्यभाषत ततः कुमारं सादेवी देवी प्राप्तकालमजीजनत् पाण्डुम् लक्षणसम्पन्नम् दीप्यमानमिव श्रिया यस्य पुत्रा महेश्वासा जज्ञिदे पञ्च पाण्डवाः ऋतुकाले ततो ज्येष्ठाम् वधूम् तस्मै न्ययोजयत् सातुरूपं च गन्थम् च महर्षेः प्रविचिन्त्यतम् नाकरोद्वचनम् देव्या भयासुरसुतोपमा ततः स्वैर्भूषणैर्दासीम् भूषयित्वाप्सरोपमा प्रेषयामास कृष्णाया ततः काशिपतेः कृत्योपचारः कामोपभोगे नरहः तस्याम् तुष्टिमगादृशिः तया स होषितो राजन्महर्षिः संशितव्रतः उत्तिष्ठन्नब्रवीदेनाम् अभुजिष्याभविष्यसि अयम् च ते शुभे गर्भश्रेयानुदरमागतः धर्मात्मा भविता लोके धर्माता लोकेबुमतांबर सज्ञे विदुना नाम कृष्णनाजराष्ट्रता पांडोश महात्म धर्मो विदुरूपेण शापत्स महात्म माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत् प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च स तस्यै गर्भम् समावेद्य एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि जज्ञिरे देवगर्भाभाः कुरु वंश विवर्धनाः इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि विचित्रवीर्यसुतोत्पत्तौ पञ्चाधिकशततमोऽध्यायः